सरस्वतीस्तुति सरस्वती नमस््यं वरदे कामिणी विद्यारंभ क्या सिद्धि मे सदा या कुंदेन्दुषार हधवला या शुभ्रवस्वृता या वीणा वरदंडमंडितक या पद्मासना या ब्रह्माच्युतशङ्करप्रभृदिभिः देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा माणिक्यवीणामुपलालयन्ती मदालसां मञ्जुलवाग्विलासां माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण हस्ते नमस्ते माता, माता मरकत मातंगी मदशालिनी मातङ्गीमदशालिनी कटाक्षं कल्याणि कदंबवनवासिनी जय मातङ्गतनये जय नीलोत्पलद्युते जय संगीत रसिके, जय लीलाशुकप्रिये पद्मपत्रविशालाक्षि पद्मकेसरवर्णिनी नित्यं पद्मालया देवी सा पातु सरस्वती शारदा शारदाम्भोज वदना वदनाम्बुजे सर्वदा सर्वदास्माकं सन्निधिस्सन्निधिं कुरु सरस्वतीत्ययं खृष्टा वीणापुस्तकधारिणी हंसवाहनसंयुक्ता विद्यादानकरी मम नमस्ते शारदादेवी देवी काश्मीरपुरवासिनी वामहं प्रार्थये नित्यं विद्यादानं च देहि